मुद्गलपुराणं खण्डं त्री महोदरचरितम् अध्यायं तर्टि त्रि कृतवीर्यव्रतप्राप्तिवर्णनं श्रीगणेशाय नमः मुद्गल उवाच व्रतं लब्ध्वा पुस्तकं संलिख्य सङ्गृह्यमायया सं धनखकृतवीर्यस्य स्वप्ने सद्यो जगामः धनकं पितरं दृष्ट्वा कृतवीर्यो ननामतं पुत्रं राजा समादायोत्संगे स्वस्य जगादतं धनक उवाच पुत्रनाविधा यत्नाविशेषेण कृतास्त्वया पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया तेन पुण्येन पुत्रस्ते भविता नात्र संशयः ब्रह्मणा कथितं मे यत्पुस्तकं तद्गृहाणः इत्युक्त्वा पुत्रहस्ते तद्दत्त्वा पुस्तकमादराद अन्तर्धानं ययौ राजा जजागार नृपात्मजः पुस्तकं हस्तगं दृष्ट्वा विस्मितो भूत् प्रहर्षितः पितरं दुःखितो भूत्वा सस्मारस रुरोद वै सपत्नीकस्तदो राजा कृतवीर्यो जगामः स्वपुरमानितस्तत्र प्रधानादिभिरादराद तदत् सब्राह्मणान् राजा समाकार्य ननामतान् पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः अहोराजन्महाभागपुस्तके व्रतमुत्तमं लिखितं सर्वसङ्कष्टहारकं सर्वदम् परम् कृष्णपक्षे च दुर्ध्यां वै चन्द्रोदय समागमे पूजनीयो विशेषेण गणेशसिद्धिदायकः पूजयित्वा गणाधीशं तदोर्घ्यं तिधये नृपा गणेशाय च चन्द्राय दातव्यं व्रतकारिणा सूर्योदयात्समारभ्य गणेशस्मरणं नृप कर्तव्यं तत्र जलपानादिकं तथा चन्द्रायार्ख्यं तथा दत्वा सप्तवारं नृपोत्तम ब्राह्मणांस्तद आपूज्य भोजयेत् तान् मोजयेत्परमान्येन मोदकादिभिरादराद पायसेनापि सितया युतेन मधुरेण च ततः स्वयं भोजनं वै समाचरेत, दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कञ्चुकादिकं ततो जागरणं कार्यं गणेशस्तवनेन च प्रभाते विमले पूर्ववत्जयेद् विभु गणेश तदो विप्रान् भोजयेदूवन्नृप दक्षिणा विपुलाम् तेभ्यो मासे मसे मसे प्रकुर्स्व व्रत गाणेशरद सर्वसङ्गडहीनः सन्नन्देत्स्वानन्दगो भवेः अपारमहिमयुक्तं व्रतं प्राप्तं त्वया नृप त्वदीयसङ्गयोगेन जनेभ्य सिद्धिदं भवेद् न श्रुदन्नैव दृष्टं च व्रतं केनापि भूमिप लोकानामुपकाराय भविष्यति विशेषतः चतुर्विधं जगत् सर्वं सङ्कष्टकरमुच्यते तस्माद् बन्धननाशार्धं व्रतं चेतं भविष्यति इह भुक्त्वा किलान् भोगान् दुर्लभान् देवभोग्यकान् अन्दे मोक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ये मुक्तर्वे गुवाश्रम तदावी तदा राज च्रतमुतम सूद उवाच मुद्दल से वचश्रुवा कृष्ण मजापति जगा दत्मक्यं संशय्छेदनाय दक्ष उवाच कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतं महामुने भीमनाम्नां त्यजेर्णैव कृतं कथं चतुर्धीव्रतपुण्येन स एव कृतवीर्यकः बभूव विप्रत्वया संशयदायकम् अथ संशयनाशार्थं वदमुद्गलमे वचः सर्वज्ञस्त्वं न सन्देहः साक्षाद्योगीश्वरो महान् मुद्गल उवाच प्रजापदे शृणुह्यत्र भचनं मे महामदे येन संशयो नाशं गमिष्यदि न संशयः व्रतं गाणेश्वरं दक्ष चतुर्थी संज्ञकं परं सङ्कष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् पृथिव्यां स्वर्गलोके तत्पादालेत् सर्वसम्मतं चदुर्धीच च समुत्पन्ना तदारभ्य प्रतिष्ठितं जनास्तन्नैव जानन्ति पृथिव्यां कुत्रचित् प्रभो कृतवीर्या च सर्वत्र प्रकाशमगमद्व्रतं ये दत्ते सर्वमाख्यातं शृणु तस्य कथानकम् कृतवीर्यस्य भूपस्य पुण्यदं शृण्वदे भवेद् ॐ तत्सदिति श्रीमदा्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ओ